श्रीहरये नमः अथ षड्विंशोऽध्यायः नारथ उवाच स ये गता महेश्वासो रतं पञ्चास्वमासुभं द्वीपं द्विचक्रमेकाक्षं त्रिवेणं पञ्चभन्धूरम् एकरश्नेकधमनं एकनीढं द्विकूबरं पञ्चप्रहरणं सप्त वरुतं पञ्चविक्रमम् हैमोपस्करमागृह्य स्वर्णवर्माक्षयेषु धीः एकादश च मूनाथ पञ्चप्रस्थम् अघात्वनं चचार मृगयां तत्र धृप्त आदेशकार्मुकः विहाय जायां मतधर्हा मृगव्यसनलालसः आसुरीमृत्तिमाश्रित्य घोरात्मा निरनुग्रहः न्यहनन्निसिथैर्बाणैर्वनेषु वनगोचरान् तीर्थेषु प्रतिदृष्टेषु राजा मेध्यान् पशून् वने यावदर्थमलं लुब्धो हन्यादिति नियमयथे य एवं कर्म नियतं विद्वान् कर्मणा तेन राजेन्द्र ज्ञानेन न सलिप्यते अन्यथा कर्म कुर्वाणो मानारूढो निबध्यते गुणप्रवाहपतितो नष्टप्रज्ञो व्रजत्यधः तत्र निर्भिन्नघात्राणां चित्रभाजैसिलिमुखैः विप्लवो भू दुःखितानां दुःसहकरुणात्मना ससान् वराहान् महीषान् गवयान् रुरुशल्यकान् मेध्यानन्याश्च विविधान् विनिघ्नन् निवृत्तो गृहमेयिवान् कृतस्नानोचिताहार संविवेशगतक्लमः no आत्मानामर्ह याञ्चक्रे धूपाले पस्रघादिबेः सात्वलङ्कृतसर्वाङ्गो महिष्यामादधे मनः तृप्तो हृष्टसु दृप्तश्च गन्तर्पाकृष्ठमानसः नव्यषष्टे वरारोहा गृहिणीं गृहमे अन्तःपुरस्त्रियोपृश्चत् विमना इव वेदिशत् अभिव रामासे स्वरीडां यथा पुरा न तथैतर्हि रोचन्ते गृहेषु गृहसम्पदः यति न स्याद्गृहे माता पत्नी वा पतिदेवता व्यङ्केरत इव को नामासीतधीनवत् क्व ललना क्व ललना मज्जन्तं व्यसनार्णवे या मामुद्धरे ते पदे पदे रामाबूचो नरनातन जानीमस्त्वत् प्रिया भूतले निरवस्तारे सायानां पश्य शत्रुहन् नारथौ वाचा पुरञ्जनस्वमहिषीं निरीक्ष्य अवधुताम्भुवि तत्सङ्गोन्मदितज्ञानो वैक्लव्यं परमं ययौ सान्त्वयन्स्लक्ष्णया वाचा हृदयेन विधूयत प्रेयस्या स्नेहसंरम्भ लिङ्गमात्मनिनाभ्यग अनुन्येथ सनकैर्वीरोऽनुनय गोविदः पस्पर्शपादयुगळमाह सोत्सङ्गलालितां पुरञ्जन उवाच नूनं त्वकृतपुण्यास्ते भृत्याये ईश्वराशुभे कृतगस्त्वात्मसात्कृत्वा शिक्षा दण्डं न युज्यते परमोनुग्रहो दण्डो भृत्येषु प्रभुणार्पितः बालो न वेत तद्धन्वे भन्तु कृत्यममर्षणः सात्वं मुखं सुधती सुब्रू अनुरागभर व्रीढा विलम्ब विलसत् हसितावलोकं नीलालकालिभि उपस्कृतम् उन्नसं न स्वानां प्रदर्शय मनस्विनि वल्गुवाक्यं तस्मिन् दधे धममहं तव वीरपत्नी योऽन्यत्र पुुसुरकुलात् कृत किल्भिषस्तम् पश्येन वीतभयम् मुन्मुदितं त्रिलोक्या अन्यत्र वै मुरर्ये भोरितरत्र दासात् वक्त्रं न ते वि तिलकम् मलिनं विहर्षम् सम्भ्रह्म भीममविमृष्टम् अपेतराघम् पश्येस्तनावपि सुशोभहतौ सुजातौ बिम्भतरं विगत कुङ्कुमपङ्गराघम् तन्मे प्रसीद कृतकिल्भिषस्य स्वैरं गतस्य मृगायां व्यसननातुरस्य काधेवरं वसगतं कुसुमास्त्रवेघ विस्रस्तपुंस्नमुसदे न भजेत इति श्रीमद्भागवते महापुराणे चतुर्दशस्कन्धे पुरञ्जनो वाख्याने षट्विंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुमहाराज कि जय